करुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायं ट्वेल् श्रीकृष्ण उवाच नाडीं समाविश्य महानुभावश्रीविष्णुभक्तोत्वथपुष्करस्थः विचारयामास गुरुं स्वमूलं नारायणं निर्गुणमद्वितीयम् यदा वदाहरिभक्तस्य तस्याप्यच्छिन्नभक्तस्य च दुर्मुखस्य विचारकाले च विचन्दनीयो ह्यज्ञानलेशस्तु खगेश्वरेश्वर यथास्ति विष्णोर्मनः सङ्कल्प एव तथैव आलोचने तस्य सादास्ति सदास्ति भूमन् स्वयोग्यतामनतिक्रम्यजैव हरे स्वरूचे हरे स्वरूपेच च तथा प्रपञ्चस्वस्मिन् स्वरूपे च कगास्ति ज्ञानं यथापि नित्यं परिचारवारि च अज्ञातवदृश्यते विष्णुना च हरे प्रीत्यर्थं कुरुते सौ कदाचित्तत्रापि कश्चिद्विशेषोऽस्तिविन्द्र शृणुष्व सम्यग्निगृहीदजितो यथा प्रोवाच स विजानादिदेवः सदा त्वदोषम् प्रविशेषैश्च मुक्तवेदास्तथा वा पविजानन्ति नित्यम् तस्य स्वरूपं न तथा हरिं च स्वयोग्यतामनधिक्रम्य वेधाः हरेस्वरूपं न विजानादि सर्वं स्वयोग्यरूपं सर्वदा वेत्ति विष्णोः तत्राज्ञानं नास्ति किञ्चिद्विजेन्द्रयावत्स्वरूपं च तथैव लक्ष्म्या वेदा न जानाति कृतस्तदन्येतयोः स्वरूपं न विजानादि सर्वं तथापि वेदानेकदेशेन वेदजानादिलक्ष्मीर्हरिरूपं च यावत् तावन्न जानातिविधिकखेन्द्रज्ञाने विधातुश्च स्वयोग्यभूते अदो विरिञ्चस्य न चिन्तनीयो शज्ञानले शक्वाभिदेशे च काले नाडीं समाविश्य तदा विरिञ्चो न वेदनारायणमेकवच्च तदा शृणोत्तं कमलासनं प्रभुस्तपस्तपद्व्यक्षरं सादरेण अभिप्रायं तस्य सम्यग् विदित्वा तपः कुरुत्वं हरितुष्ट्यर्थमेव तपोकरोद्धरिपादकैक निष्ठो हरे प्रीत्यर्थं दिव्यसाहस्रवर्षं ततो हरिप्रादुरासीत्कगेन्द्रवरं दातुं भक्तवर्यस्य दिव्यं सदा विष्णुं देवदेवो ददर्श चतुर्भुजं तं जलता यताक्षं श्रीवत्सलक्ष्मम् बलशोभिकौस्तुभं सम्पश्यन्तं सुप्रसन्नार्द्रदृष्ट्या दृष्ट्वा हरिं ब्रह्मनारायणं च पुरस्थितं भक्तवश्यं दयालुं समर्चयामासविभूत्या भक्त्या हरे पादतीर्थं दधार अस्ताौन्महाभागवतप्रधानो हरिं गुरुं भक्ति विवर्धितात्मा ब्रह्मोवाच रमेशलोकेशजगन्निवास तव स्वरूपं न विजानादिदेवी तव प्रसादात्सुविजानादिदेवी गुणान् वेदोक्तान् सर्वदा वीन्द्रसर्वान् तथापि सा न विजानादिदेवी साकल्येनाशिष्यत्सद्गुणांश्च यद्यप्यनुक्तं पञ्चभिर्नास्ति वेदैस्तथापि देवेऽत्र विशेष आस्ते तत्तु वेच्छ वप्रविजानन्दिनित्यं वेदे सूक्तान् सर्वान् आदौ जानन्द्यत्र वेदामुरारे ऋगादयः सुष्ठु वेदाह्ये देवेदयन्ति दिदेव तथा पुराणं भारतं पञ्चरात्रं क्रमादिदो विचिन्त्य सा विष्णुगुणान् स्वयोग्यान् सदा विजानादिरमापि देवी विशेषतो ह्युक्तगुणानृगादिषु स्वयोग्यभूतान् सं सामान्यतप्रविजानादिदेवी हरेर्गुणान्नविशेषाच्च नित्यम् अहं विजानामि रमा प्रसादा तव प्रसादा च गुणान् सदैव स्वयोग्यभूतान् श्रुतिसूक्तान् गुणांश्च कांश्चिद्विजानादिहरेर्न कश्चिद् तव प्रसादा च मम प्रसादात् कालान्तरे तांश्च जानादिशेषः दुष्कर्मलेशान्नतिरोहितान् गुणान्यानेव पूर्वम् विदितान् स्वयोग्यान् तानेव ज्ञात्वा पुनरेव शेष स्थिरो इदाम् लब्ध गुणस्तद स्मृदः सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तवप्रसादाद, प्रसादा यदा विजानादि हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरे ह ममा विलोकं च यदा मुरारे तदा विजानाति तव स्वरूपं गोविन्दनित्याव्ययचित्सुपूर्न तव प्रसादान्नास्ति सदेषु तन्म ये ये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ये ये देवाविषयेषु निष्ठास्ते ये देवा बहिरर्धभावाः ये ये देवा, दे देवा बहिरर्धभावा बहिर मोक्षाधन्ये प्रलपन्तः सदैव तव स्वरूपे जगत्स्वरूपे तव समानं नास्ति विष्णो सदैव यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्येव नित्यं पूर्णानन्दज्ञानदेहो विनित्यं सदा शरीरीभाष्यदे भक्रिमद्भिः यतस्तव प्राकृतो नास्ति देहो ह्यतो विनित्यमशरीरिति च स्मृतः न दोऽहं सर्वदास्मिन् शरीरेऽहं ममेत्यभिमानेन शून्यः अतोऽप्यहं त्वशरीरि सदैव तदैव नित्यं बहिरर्धैश्च शून्यः स्वभोगभार्यासत्यलोगादिभोगस् स्वयोग्यभोगो वस्त्रमाल्यादिभोगः एते सर्वे बहिरर्थसञ्ज्ञकाः नैसर्गकाम सर्वदा मे हि विष्णो तथाप्यकं कामहीनो हि नित्यं रुद्रादयकामवन्दो यदोदः शरीरिणस्ते बहिरर्धभावा अज्ञानवन्दोऽपि च संस्मृता ख स्वदारभोगे केवलं प्रीतिमेवं हरिरेवं सर्वदाकं करोति दी। स्तम्भास्त्रादीन् धारयिष्ये सदैव विष्णो प्रीत्यर्थं नैव गात्रार्थमेव नित्यानन्दाधन्यकामो नमेस्ति अधः सदा बहिरर्थैश्च शून्यः ममापि भार्या बहिरर्धशून्या अमूढभावा मूढवदीव दृश्यते अमूढभूताज्ञानिनां सर्वदैव तथा ज्ञानं ज्ञानहीनेधिभा यावत् ज्ञानं चास्ति मे वास्तुदेव तावत् ज्ञानं वासुदेवस्य चास्ति यावत् ज्ञानं वासुदेवस्य चास्ति तावत् ज्ञानं ज्ञानवदामृजूनां क्रमेणैव ज्ञानिनां वा नृजूनां स्पष्टरूपो ज्ञानगदो विशेषः सौरिप्रकाशेत यथैव दर्शनं तथा मम ज्ञानगदो विशेषः दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति yes. अस्पष्टरूपा न्यूनताह्यस्ति वायौ तथा ज्ञानं नैव सचिन्तनीयं यदादृशीज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ज्ञानम् त्वर्जूनां मोक्षकालेऽपि पञ्चवाय्वादीनां प्रलये नाद्रादीर्न वायोर्मम प्रलये सृष्टिकाले वा तथा गायत्र्या नास्ति नास्त्येवमोहः गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः मम ज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनाथ सदैव तेन प्रीतिर्देवदेवस्य विष्णोर्भविष्यतीत्येव भविष्यतीत्येव विनिश्चितात्मा प्रसाधिकं त्वज्ञवत् सर्वदैवं करिष्येऽहं मोहनायाधमानाम् सूर्योदये नास्ति यथा तमश्च तथा ज्ञानं नास्ति नास्त्येवदेव करोम्यकं श्रवणं सर्वदैव हरिप्रीत्यर्थं निश्चतार्थं सदां हि शतजन्मगदानां त्वनृजूनां पूर्वमेवदु अपरोक्षा भावयेव ह्यज्ञानम् समुदीरितम् अपरोक्षानन्तरं तु नास्त्यज्ञानं न संशयः शतजन्मसु देवेश अपरोक्षेण सर्वदा पूर्णज्ञानं ममास्त्येव नात्रकार्याविचारणा शतजन्मसु पूर्वं तु परोक्षेण मम प्रभो पूर्णं ज्ञानं सदाप्यस्तीत्येवमाहुर्महर्षयः संज्ञाजन्मगदायाश्च सरस्वत्या महाप्रभो नाज्ञानं चिन्तनीयं हि ब्रह्म युगोश्च देव हि अत्र कश्चिद्विशेषोऽस्ति ज्ञातव्यस्तत्त्वमिच्छुभिः अवतारेषु भारत्या कदाचित् ज्ञानपूर्वकं सर्वदा ज्ञानरूपा सा सर्वदुःखविवर्जिता दैत्यानां मोहनार्थाय अंशे दुःखीव दृश्यते तस्या दुःखाधिकं किञ्चिन्नास्ति नास्त्येव सर्वथा अपरोक्षतिरोभाव ईषत्काले प्रदृश्यते तावन्मात्रेण वा ज्ञानं तस्यां नैवाहितं च यद् मूलरूपे तु नास्त्येव भारत्या भारत्यास्तु यथा नास्ति सरस्वत्यास्तु किं पुनः अंशावतरणं नास्ति सरस्वत्याकथाचन अंशावतरणं नास्ति ममापि मधुसूदन तथैव ज्ञानमस्त्येव हरेर्नारायणस्य च वायोरंशावतारोस्ति यथा मूले तथैव च बलज्ञानादिकं सर्वं चिन्तनीयं न संशयः तथापि वायौ दृश्यन्ते बलज्ञानादिव्यक्तयः अवतारेषु वायोस्तु सम्यक् शक्रियात्मनास्ति हि अबरोक्षतिरोभावव अरो क्षति भावनावतण बलज्ञागम यमूलू प्रदृश्येदागस्वे न दर्शयदितादृशमेुगूदचादर्शय प्रभो द्वापरस्ते स्वरूपे तत् दद्दर्शयति तादृशं त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो द्वापरस्ते वायुरूपे यादृग्वादर्शयत् प्रभुः वायुकलियुगे रूपे तद्दर्शयति तथा दर्शयदे वायुर्दैत्यानां मोहनाय च अवतारेषु वायोश्च अंदरं ये प्रभो ते धं तमप्रविशन्ते ते दैत्या न च ते सुराः वाय्या वायावप्यन्तरं नास्ति हरितत्त्वविनिर्णये निन्दां कुर्वन्ति ये विष्णोर्जिह्वाच्चेदं करोम्यहम् तदर्थमेव वायोश्च अवतारः सदा भुवि गणपूर्णस्य विष्णोस्तु निर्गुणत्वविचिन्तनं जातानन्तादिपूर्णाङ्ग्यं सोऽहमित्यादिचिन्तनम् चिदानन्दात्मके देहे उत्पत्त्यादि विचिन्तनम् अच्छेद्या भेद्यगात्रेषु चेदभेदादिचिन्तनं देव्या नित्यावियोगिन्या वियोगादिविचिन्तिनं विचिन्तनं क्लेशशोकादिशून्यस्य हरे क्लेशादिचिन्तनम् व्यासरामादिरूपेष्वनृषी विप्रत्वचिन्तनम् कृष्णरामादिरूपेषु अन्तरस्य विचिन्तनम् रामकृष्णादिरूपेषु अन्तरस्य विचिन्तनम् रामकृष्णादिरूपेषु पराजयविचिन्तनं सन्तानार्थं तु कृष्णेन शिवपूजादिचिन्तनं रामेण दुःखयुक्तेन लिङ्गस्य स्थापनं कृतम् पञ्चधातुमये कृष्णे हरिरूपविचिन्तनं स्वयं व्यक्तस्थले चापि चिदानन्दत्वकल्पनम् पितृमातृद्विजातीनां हरिरूपत्वचिन्तनम् अस्वतन्त्रेण रुद्रेण हरेराइक्यदिचिन्तनम् विष्णुसूत्रेण साकं च अभेदादिविचिन्तनं सर्वोत्तमः सूर्य एव विष्णोद्यास्तस्य किङ्कराः इत्यादिचिन्तनं दोषो जोच्यदे चोच्यते अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च शालग्रामं विहायैव नमनं ये प्रकुर्वदे ते सर्वे हरिनिन्दायामविकारिण एव हि मोक्षाधिकारिणो येदु अज्ञानात्परमेश्वरं पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो तर्हि तेषां हि कालेषु दुःखं यादिन संशयः अध क्यनयनं ये कुर्वन्त्येषु सर्वदा ते सर्वे त्वबुधाज्ञेया नात्रकार्याविचारणा अस्वयं व्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ते सर्वे ह्यसुराज्ञेया नान्यधादुकथञ्चन विहायशून्यमश्वद्धं नमनं ये प्रकुर्वते द्विमासहीनां तुलसीमप्रसूतां च गां नवां ते सर्वे ह्यसुराज्ञेया नात्र कार्या विचारणा ब्रह्म बाहवः अस्मच्छतायुः पर्यन्तमेक एव कलिस्मृदः कलौ सन्ति कल्पमानं कलेरन्ते सन्ति च तस्मिन् दिने ब्रह्मरूपे गच्छन्ति च तमोऽधिकं तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः साधकैर्विष्णुकार्याणां वायुदा सै प्रपीडिताः शतवर्षानन्तरं च सर्वेषां कलिना सह वायोर्गताप्रहारेण लिङ्गभङ्गो भविष्यति तमोन्धं प्रविशन्ध्येदे तारतम्येन सर्वशः तम सभी संसारेनात्र कार्याचारण्यकिवशय दूषको विषुभक्ता तत्मों सर्वदा संसारेवांतमसी हरिदूष मिथ्यादे ज्ञानबुदिर्दुख कलि सुखे चुखबुद्धि तस्कलीकेिवक्त न कुचिद दुर्योधन सवो दुखानंद्यस्व तस्मा सद गुणाशे न कलिवदा अलक्षी दिव्याे मंथरा स्मृद तस्माद् दशगुणांशो नो विप्रचित्तिस्तु सर्वदा जरासन्धः स एवोक्तकालनेमिस्ततः परं तस्मात् सद्गुणांशो नः सदु कंसेदि विश्रुतः तस्मात् पञ्चगुणैर्हीनौ मधुकैढपसंज्ञकौ तावेव हंसहिडम्बकौ ज्ञेयौ तौ जनार्दन विप्रचित्तिसमज्ञेयो भौमो वैभूतले स्मृतः तस्मादष्टगुणैर्युच् तस्मादष्टगुणैरुच्ये हिरण्यकश्येपुः स्मृतः तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः मणिमांस्त तत्समोज्ञाय किञ्चिदूनो बगस्मृतः तस्माद्विंशद्गुणर्हीनस्तारकाख्यो महासुरः तस्मात् षड्गुणदो ही नः शम्बरो लोककण्टकः शम्भरस्य समो ज्ञायशाल्वो दैत्येषु चाधमः शम्बरात्तु किडिम्बोऽन्यून उच्यते बाणस्तदोधमो ज्ञेयस्सदुखी चकनामदः द्वापारख्यो महाभासो बाणासुरसमस्मृदः तस्माद्दशगुणैर्हिणो नमुचिर्दैत्यसप्तमः नमुचेस्तु समज्ञेयौ पाक इल्लुवल तस्मा ुभौ तस्माच्च दुर्गुणान्हीनो वादाभिर्दानवाधमः तस्मात् सार्धगुणैर्हीनो धेनुगो नाम दैत्यराडेनुगादर्धगुणधः केशीदैत्यस्तु चावरः केशिदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः तस्माद्दशगुणैर्हीनोऽहंसो नाम रमापदे त्रिरिक त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृदः वेदस्यैव विज्ञेयपूर्वजन्मनि सत्तमः तस्मादेकगुणैर्हीनौ कुम्भाण्डककुपर्नकौ दुःशासनस्तु विज्ञेयो जराशम् धसमप्रभो कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः कुम्भकर्णा चदगुणैर्हीनौ क्रध्येदिविकृतः विश्रुतः तस्माच्चदगुणैर्हीनशदधन्वा महासुरः समानस्तस्य विज्ञेय कर्मारिर्दैत्यसत्तमः कालकेयस्तु विज्ञेयः सदा वेन समोमदः अधमानं तु दैत्यानामुत्तमै साम्यमुच्यते तत्रावेशाच्च विज्ञेयं देवानां नात्र संशयः तस्मात् सदगुण् महान् तच्छरीराभिमानीतु तस्मादगुणैर्वरः तस्मादगुणैर्हीनो हस्तमानसुरो महान् तस्मादगुणैर्हीनपादमानसुरो महान् नेत्रेन् नेत्रेन्द्रियाभिमानीतु तस्मात् चदगुणो वरः चक्षुरिन्द्रियमाणे तु तस्माच्च गुणोवरः तस्माच्च गुणाैर्हीनस्पर्शमानसुरो तस्माच्चद गुणार्हीनश्चण्डमान सुद गुणार्हीन शिश्रमानसुरो महान् तस्माच्छदगुणैर्हि न कर्म मा न सर्वे रुद्राद्या अधिकारिणः कदाचित् सुविरुद्धं च कुर्वन्ति तव सत्तम कदाप्यफं च वायुश्च विरुद्धं न चरे ब भोः बुद्धिर्विनश्यदे यस्मात्तस्माच्छिन्नाहितेखिलः महीपदे च मद्बुद्धिस्तस्मादच्छिन्नसञ्ज्ञिकः यदा दृशोऽप्यहं देवन्न च शक्तिस्तु नस्तवे मह्यमच्छिन्नभक्ता यदयां गुरुमहाप्रभो इति स्तुत्वा हरिम् ब्रह्मास्तितप्राञ्जलिरग्रदः इति श्रीगारुडे महापुराणे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ब्रह्मस्तुतिवर्णनम् नामद्वादशोऽध्यायः ओम् अध्यायम् श्रीकृष्ण उवाच इति स्तुदः स भगवान् स्वपुत्रेणदयानिधिः मेकगम्भीरया वाचा प्रोवाच मधुसूदनः सृजब्रह्मन्निमान् देवान्मत्प्रसादात्क्रमेण च यथा वै प्राक्षणे तद्वत्सृज सर्वम् नास्ति प्रयोजनं तेन तव मत्प्रीदये सृज एवमुक्तस्तु हारिणा ब्रह्मास्तु त्वा हरिं परं सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवं महत्वात्मको ब्रह्मा वायुं जीवभिमानिनम् आद स सर्जगरुपुरुषात् सदो दक्षिणहस्ता ब्रह्मी भारदी तथा असृजते महाभागे अव्यक्तिके वाहस्ता सत्यपुत्रो महतमल ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मगोहरः आदौ शेषस्ततो ज्ञे गरुड तदनन्तरं तदनन्तरजोरुद्रस एवं सृष्टवान् प्रभुः स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः वायमुत् पाद्रयामास वत्सरानन्तरे प्रभुः गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरं संवत्सरानन्दरे दुभरदीमसृजत्प्रभुः भारत्यनन्तरं शें दिव्यसाहस्रवत्सराद अनन्तरं सम्बभूव गरुडस्तु ततः परम् दिव्यसहस्रवर्षात् तथा रुद्रञ्च सृष्टवान् षस्यानन्तरं देवीं वारुणीं च महाप्रभुः दशवर्षानन्तरं तुह्यसृजत्कमलासनः गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः दशवर्षानन्तरं च पार्वतीं च तथैव सः पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् दशवर्षानन्तरं दु वास्तवम् ह्यसृजत्तदः अभिमानीदक्षिणस्य बाहोश्च परमेष्ठिनः दशवर्षानन्तरं तु शची मसृजत्प्रभुः इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् असृजद्वामबाहोश्च मनस्तत्त्वाभिमानिनं तदनन्तरजां देवीं दशवर्षादनन्तरं रतिं स जनयामास कामभार्यां महाप्रभुः कामस्याप्यभिमानी तु स एव परिकीर्तितः ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरं दशवर्षानन्तरं तु निर्ममे ततः तस्य भार्यां नासिकस्य पञ्चवर्षादनन्तरम् निर्ममे नासिकाम् वा मां ब्रह्मा लोकपितामहः अहङ्कारादनुब्रह्मा सज्ञानं च बृहस्पतिं निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरं पञ्चवर्षानन्तरं तुतारां भार्यां विनिर्ममे गुरोरनन्तरं ब्रह्म पञ्च विंशादनन्तरं स्वायम्भुवं मनुं चैव निर्म मे मनसा विभुः पञ्चवर्षानन्तरं तु शतरूपां विनिर्म मे शतरूपानन्तरं प्रभो पञ्चवर्षानन्तरं तु चतुर्मुखः प्रसूदिमसृजद्ब्रह्मसृष्ट्यर्थं परमादराद <laughs> दक्षस्यानन्तरं ब्रह्म पञ्चविंशादनन्तरं निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः पञ्चवर्षानन्तरं तु ससर्जभगवानजः विराजसञ्ज्ञकाम्भार्यां मध्यमाङ्गुलिपर्वदः अनिरुद्धानन्तरशतवर्षादनन्तरं निर्म मे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वदः दशवर्षानन्तरं दुःप्रवाहीं निर्म मे प्रभुः कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः प्रवहानन्तरं तब्रह्माशतवर्षादनन्तरं यमं विनिर्म मे पृष्ठा दष्टवर्षादनन्तरं तद्भार्यां श्यामलां देवीं तस्मादेव महाप्रभुः यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् असृजदक्षिणाश्चोत्राच्छोत्रतत्त्वनियामकं नववर्षानन्तरं दुरोहिणीसमजप्रभुः वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनं चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरं सम्यग्विनिर्म ब्रह्मा दक्षिणाक्ष्णश्च देवताम् वामाक्ष्णो निर्ममे सञ्ज्ञाम् षड्वर्षानन्तरम् प्रभुः सूर्यस्यानन्तरम् ब्रह्मा शतवर्षादनन्तरम् रसनेन्द्रियाश्च वरुणम् निर्ममे तस्य मानिनम् विंशद्वर्षानन्तरम् तु तस्मादेवेन्द्रियात् प्रभुः गङ्गां विनिर्म मे ब्रह्मा रसनेन्द्रियदेवतां वरुणस्यानन्तरं तु दशवर्षादनन्तरम् उत्सङ्गान् निर्म मे ब्रह्म नारदं भगवत्प्रियम् रदस्यानन्तरं तु षष्टिवर्षादनन्तरम् अग्निं विनिर्म मे ब्रह्म त्वगिन्द्रियदप्रभुः अदो वागभिमानी सम्पञ्चवर्षादनन्तरं स्वाहां विनिर्ममे मे ब्रह्म तामाहुर्मन्त्रदेवताम् अग्रे अग्नेरनन्तरं विन्द्रभृगुम् ब्रह्मर्षिसत्तमं दशवर्षानन्तरं तु भ्रुगोर्मध्याद्विनिर्म मे संवत्सरानन्तरं तु भृगुभार्यां विनिर्म मे भृगोरनन्तरं ब्रह्माशदवर्षादनन्तरं कश्यपञ्जनयामासमनसा च स्वयं प्रभुः संवत्सरानन्तरं तु अतिथिं नुर्म मे प्रभुः कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम् अत्रेरनन्तरं ब्रह्मादशवर्षादनन्तरम् अजीजनद्भरद्वाजं वसिष्ठ तदनन्तरं दशवर्षानन्तरं तु तेषां भार्याक्रमेण तु संवत्सरानन्तरेण असृजत् कमलासनः वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत् प्रभुः दशवर्षानन्तरेण जमदग्निं तदोऽसृजद दशवर्षानन्तरेण मनुर्वैवस्वतो भवद मनोरनन्तरं यज्ञेशतवर्षादनन्तरम् विश्वक्सेनो महाभागोवायुपुत्रो महाबलः तस्माच्चतुर्दशे वर्षे गणपोह्यभवद्विभोः तदनन्तरजोविन्द्र अष्टवर्षादनन्तरं धनपोह्यभवत्तत्र तद्भार्यावत्सरे परि विश्वक्सेनानन्तरं द्विदशवर्षादनन्तरम् ययादीन् भगवद्भक्तान् सृष्टवान् कमलासनः जयाद्यानन्तरं ब्रह्मा वल्लाघ्याकर्मदेवताः शतवर्षानन्तरं तु सृष्टवान् शिववाहनं कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरं पर्जन्यमसृजद्ब्रह्मा मन्त्रयन्त्राभिमानिनम् पर्जन्यानन्तरं ब्रह्मादशवर्षादनन्तरं पुष्करं जनयामास कर्मतत्त्वाभिमानिनम् एवं विनिर्म मे ब्रह्मा मत्प्रसादात् खगेश्वर एवं ज्ञात्वा मोक्षमे दिनान्यधादुकधञ्जन इति श्रीकारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवोत्पत्तिनिरूपणं नाम त्रयोदशोऽध्यायः ओम् अध्यायम् फोर्टीन् गरुड उवाच अवतारान् हरे ब्रूहि तथा लक्ष्म्या दिवौकसाम् गुणानामन्तरब्रूहि शिष्यस्य मम सव्रत श्रीकृष्ण उवाच यो मूलरूपी भगवानन्दो ब्रह्मादिभिः पूर्णगुणस्वतन्त्रः पुरातनः पूर्णतनुर्मदात्मा न तादृशा सन्धिकदापि वीद्र पादश्च पूर्ण पादतलं च पूर्णं न पूर्णा कटिकण्ठौ च पूर्णौ उरू च पूर्णे उदरं च पूर्णं लब्ध्वापि पूर्णान् जगृहे तथाप्युरः स्कन्दः सकलाश्च बाहवपूर्णा केशाश्व श्मश्रु दन्ताश्च लोमानि पूर्णानि तथैव रोमकूपाश्च पूर्णास्तु तथैव शिश्रः अण्डश्च पूर्णो ह्यण्डरोमाणि श्रोत्रे सर्वयेते च पूर्णाः किं वर्णये मूलरूपं करेश्च यावद्बलं पूर्णं समग्रदेहे तावद्बलं ह्येह रोमादिकेषु सन्धित्वि मे हि यतः स एव पूर्णः स तु सर्वस्य कर्ता स एव तु सारांश भोक्ता असारांशं नैव भोक्ता हरिस्तु सारान्वक्ष्ये शृणु पक्षीन्द्रसम्यक् द्राक्षेषु सारं नारिकेलस्य सारं चूदस्य पनसस्या सारं पनसस्यापि सारं नारङ्गसारं क्रमुकस्यापि सारं खर्जूरसारं कदलीफलस्य नारायणो बीजरूपस्य सारं गृह्णातिनित्यं वर्यो दयालुः ताम्बूलसारं घदिरस्य सारं पुष्पस्य सारं चन्दनस्यापि सारं गोधूमसारं यवानां च सारं माषस्य सारं भरणोश्च सारम् शुद्धं तदा व्रीहिनीवारसारं श्यामाकसारं शुद्धधान्यस्य सारम् निषिद्धान् सर्वशाखस्य सारांस्तदा निबिद्धाल्लाम्बण स्वापि सारान् गृह्णादिविष्णुपरमादरेण अन्नस्य सारं भक्ष्य भोज्यस्य सारम् सूपस्य सारं परमान्नस्य सारं दुग्धस्य सारं दधितक्रस्य सारम् कृतस्य सारं रमढस्यापि सारं गृह्णादिविष्णुःसर्षपस्यापि सारं मरीचसारं जैरकस्यापि सारं तथाहविर्घृतपक्वस्य सारं तैलेषु पक्वस्य च भर्जितस्य गुडस्य सारं न वनीतस्य लवङ्गसारं शर्करायाश्च सारमित्यादिसारान् वासु देवस्तु भुक्ते लक्ष्मीपदिस्सर्वजगन्निवासस्तस्याज्ञया वासु देवोऽपि नित्यं तच्छेषसारानपि चावनीषो महात्मनो शां स्तृणुशिष्यवर्य एवं विमूढा वासुदेवस्य भक्ता किं वक्तव्यं विष्णुभक्ता हि लोगे। कल्याणास्ते सारभोक्तार एव नैषां भवेत् तेन दुःखाभिवृद्धिः भुञ्जन्ति ये वैश्वदेवं विहाय दुष्टां स्तान्वै भुक्ति चिन्तांश्च विद्धि वक्ष्ये विशेषं वैश्वदेवेखगेन्द्रगोप्यं नो वदन्यत्र विद्वान् सूर्यादीनां ये च दाने च दद्युर्विना वायोरन्तरस्तं हरिं च ते वै सदा सारभोक्तारयैवज्ञेयास्त्वदो विष्णुरेको महात्मा सारांशभोक्ता न तु सर्वस्य भोक्ता भुनक्ति सर्वम् त्वविरद्धशक्तिः वक्ष्येः सारान् पुर पुनरन्यान्खगेन्द्रशृणुष्व गुह्यम् परमादरेण द्राक्षादयः सर्व भावदुष्टा पदार्थाः अधिपक्वानन्तरं तु तथा दिनचतुष्टये असारा कलुषाज्ञेयास्तथा जम्बूफलं स्मृतम् मासस्यानन्तरं वीन्द्रत्वसारम्पनसं स्मृतं षण्मासानन्तरं वीन्द्र खर्जूरं तिक्तवत् स्मृतम् आर्द्रं भूतं नारिकेलं स्फोटनानन्तरं प्रभो अहोरात्रानन्तरं तु असारं परिकीर्तितं शुष्कभूतं नारिकेलं खजूरं तु यथा तथा पक्षस्यानन्तरं चूदमसारं परिकीर्तितं वक्षस्यानन्तरं वीन्द्रपूगीफलमुदाहृदम् कटिकानन्तरं वीन्द्रताम्बूलं परिकीर्तितं यमस्यानन्तरं चान्नं सोपान्नं पायसं तथा भक्ष्यं चक्वथितं वीन्द्र असारं परिकीर्तिदम् त्रिपक्षानन्तरं वीन्द्रतैलपक्वं तथा स्मृदम् चतुर्यामानन्तरं च त्वत्सारं हृदपक्वकं त्रियामानन्तरं शाखा निःसाराः परिकीर्तिता जम्बीरं शृङ्गबेरे धात्रीकर्पूरं च चूदकं वत्सरानन्तरं वीन्द्र निःसारं परिकीर्तितं पर्पटः पक्षमात्रेण निःसारः परिकीर्तिताः तुलसी तुसीदारेकदश्याज आद्र वाप्यथवा शुष्का साद्र सारृता एक वा सार तुलसी सारा ग्राह्या मनीषिवजा ना से निह्वेंद्रििएण एकादश्यां हरेरन्नं निस्सारं परिकीर्तितं एकादश्यां हरि तीर्थं मनुष्याणां खगेश्वर एकवारे जसारं स्याद्विवारे च तदोऽधिकम् एकादश्यां महाभागतीर्थं गन्धादिमिश्रितम् असारमिति सम्प्रोक्तं तथा स्वादूतमिश्रितम् एकादश्यां हरिःसारं क्षीरं सर्पिर्मधूतकम् निःसारं मनुजेन्द्राणामिति वेदविदां मदम् आषाढमासे गरुडशागो निःसार उच्यते मासिभाद्रगदेवीन्द्रह्यसारं दधि चोच्यते क्षीरं तु ह्याश्विने मासे निःसारं परिकीर्तितम् ऊर्ध्व पुण्ड्रकदाहीना नार्यसारेऽधिगीयते हरिभक्तिविहीना ये ह्यसुरा परिकीर्तिताः हरिनामविहीनं तु मुखं निःसारमुच्यते हरिनैवेद्यहीनस्तु पागो निःसार उच्यते त्रिदिनैश्चादशी पुष्पं निःसारं परिकीर्तितं प्रखरं मल्लिकासारं जादीर्दुप्रखरार्थकं त्रियामं शतपत्रं स्यात्करवीरमहर्निशं खटिकावधिसारं स्यात् पारिजातं खगेश्वर त्रिवर्षं केसरं फल्गसारमित्युच्य दे बुधैः कस्तूरीदशवर्षं तु वर्षमात्रकं ससारमिति सम्प्रोक्तं चन्दनं सर्वदा स्मृतं शुद्धनिःसारभूतांश्च वक्ष्ये शृणुखगेश्वर आरनालं पुण्यकम्भिस्सडा तथा उपोध्वजी अलाभूश्च बृहत्कोशादगी तथा वृन्ताकं चुक्रशाकश्च बिल्वं वरं तथा पलाञ्जुर्लशुनं वृन्दं कलञ्चं च तथा द्विजा एतत् सर्वत्र काले च निःसारमिति एकादश्यां वैश्वदेवं श्राद्धं दर्पणमेव मन्त्रेण प्रेतदहनमसारं परिकीर्तितम् अविर्नारायणो देवो येदांश्च ह्यशुभान्न्रसान् न गृह्णादि न गृह्णादि न गृह्णादि हरिस्वयं तथापि सर्वं जानादिजीवानां पापकर्मणाम् आस्वादनं कारयदि स्वयं नास्वाददे हरिः आ असारभोजनं चैव जीवानां कर्मजं फलम् अमुख्यभोजिनो जीवा कुन्दाद्यामुख्यभोजिनः शुभानि च पिबेद्विष्णुरशुभं नो पिबे द्विभुः को वदेत्तस्य चेष्टां तु पूर्णानन्दो हरिःस्वयं न काले च विद्यते तस्यावतारान्वक्ष्यहं शृणुपक्षीन्द्रसप्तम इति श्रीकारूडे महापुराणे ब्रह्मकाण्डे वैश्वदेवार्थकसारासारवस्तु विवेको नाम चतुर्दशोऽध्यायः ओम् अध्यायम् फिफ्टीन् श्रीकृष्ण उवाच अधावदारान् पुरुषाख्यो हरिश्च गदोध्यानं कर्तुमीशो महात्मा प्रादुर्बभूवाखिरसद्गुणार्णवः स एव विष्णुः स च बीजभूतः यो बीजभूतपुरुषाख्य विष्णुः स एव भूद्वासुदेवो महात्मा सृष्टिं कर्तुं पुरुषाख्यस्य वायोर्मायाख्यायां मूलरूपो यथा स यो सृष्टिं कर्तुं सूत्रभूतस्य वायो जयाख्याह्यं पूर्णसंवित्परात्मा स एवं सङ्कर्षणनामधेयप्रद्युम्न नाम्ना प्रद्युम्न नामा च स एव विश्रुतः सरस्वतीभारतीसर्जनार्थं स एव देव्या मूलरूपो बभूवा सृष्ट्वा युक्तं षोडशभिः कलाभिर्महत्तत्त्वं सूक्ष्मरूपं स एव साकङ्कारं क्रीडयामास देवशृणुत्वं वैषोडशाख्या कलाश्च भूतानि कर्मेन्द्रियपञ्चकानि ज्ञानेन्द्रियाणी हतधामनश्च ततो बभूव ह्यनिरुद्धसंज्ञको जीवांश्च सङ्गृह्य सोयं सोऽयं विरिञ्चाधिसमस्तदेवान् स्थूलेन देहेन ससर्जनाथः तथा स विष्णुपुरुषाभिधस्तु सनत्कुमारत्वमवापवीन्द्र अनन्यसाध्यं ब्रह्मचर्यं च कर्तुं दशेन्द्रियाणां शोषणार्थं सदैव स नन्दनादौ पठितकुमारस्तस्मान् अन्यो नात्र विचार्यमस्ति स विष्णु विष्णुसूकरत्वं ह्यवापक्षोपणीमुद्धर्तुं दैत्यवपुर्निगन्धम् हिरण्याक्षम् सज्जनानां कगेन्द्र तथा भूमे स्थापनार्थं च देवः तदोहरिर्मद्विदासत्व मापा नृष्येर्भार्यायां यामिन्यां यो महात्मा तत्रावतारे पञ्चरात्रम् समग्रमुपादेष्टुम् नापदानं स्वतन्त्रः स एव विष्णुसम्भूब्रतर्याम् नारायणाख्यः शमलापहश्च तपस्तप्तुम् शिक्षयितुम् त्वदृषीणाम् तिरस्कर्तुम् ह्यप्सरः साम् सहस्रम् तदोहरिकपिलत्वम् अवाप्य यवाप्या तिरोहिदान कालबलेन दत्वान् चतुर्विंशतिं संशयं चोद्धरिष्यन्नुपपादेश्चा सुरये महात्मा स एव ददसमभूद्रमेशो न सूया यामत्रिरूपः परात्मा नाम सुदर्कविद्यामलर्कनाम्ने प्रददाता महात्मा स एव वंशेप्यभवद्रवेश्च आगुत्यां यः सच्चिदानन्दरूपः स्वायम्भुवं यत्तु मन्वन्तरं च देवैसागं पालयामा सविन्द्र स एव विष्णुः स उरुक्रमो भूदाग्नेध्र पुत्र्यां मेरुदेव्यां च नाभे विद्यारतानां मानिनां सर्वदैवमत्याश्चर्यम् दर्शयितुं च वीन्द्र ततो हरिर्जगृहे कुर्मरूपं सुरासुराणामुदधिं विमध्नताम् पृष्टे धर्तुं मन्तरं पर्वतं च ब्रह्माण्डं वा धर्तुमीशो महात्मा तदोहरिप्रादुरभून्महात्मा धन्वन्तरिर्नाम हरिन्मणिद्वितीः अपद्यदोषान् परिहर्तुमेव हस्ते गृहीत्वा पूर्णकुम्भं सुधाभिः तदोहरिर्जगृहे श्रीवपुश्च यन्मोहिनीधिप्रवदन्ति लोके उद्वृत्तानां दिधिजानां महात्मा सम्यक् तेषां वञ्चयितुं हरिर्बलं तदोहरिप्रादुरभून्महात्मा नृसिंहनामा भगवानन्दः दैत्योहिरण्यकशिपुश्च तथोरुदेशे संस्थापितकलजैर्धारितश्च तदोहरिर्भगवान्वा मनोभूददित्यां वै कश्य पाद्धवदेवः इन्द्राये दं धादुकामखगेन्द्रतदर्थं वै पाविधुं सोविधुं च तदोहरिर्जमदग्ने सुदो भूलोके सर्वे परशुरामं वदन्ती ब्रह्मद्विषां क्षत्रियाणां च वीन्द्रभूमिं निःक्षत्रां कर्तुकामो महेशः ततो भवद्व्यासरूपी स विष्णुश्चा दुर्वारं राघवास्यापि पूर्णः पराशरसत्यवत्याम् बभूवपैलादिभिर्वेदभागांश्च कर्तुम् तदोहरीरघुवंशेवतीर्णकौसल्यायां राघवसूर्यवंशे समुद्रादोर्विग्रहं कर्तुमीशो हं तुं भूम्यां रावणादीं स्तविन्द्रः तदोहरिर्व्यासरूपी बभूव अष्टाविंशे द्वापरे ज्वानरूपी पराशरात् सत्यवत्यां स्वयं वेदान् संविभक्तुं च देवः ततो हरिकृष्णरूपी बभूव देवख्यां वै वसुदेवात्सविष्णोः कंसा दीन्वै नितरां हन्तुकामः सम्यक् पादुं पाण्ठ वांश्चाबिवीन्द्र तदः कलौ हरिस्तु सम्मोहनार्थं चासुराणां खगेन्द्र नामना बुद्धो कीगणेषु प्रजादो वेदप्रमाणं निराकर्तुमेव तदो हरिकल्किसंज्ञश्च वीन्द्र उत्पस्यदे युगयोर्मध्य सन्धौ दस्युप्रयान् भूमिपान्वै निखन्तुं नाम्ना हरिर्विष्णुगुप्तस्य गेहे केशवाद्याश्चतुर्विंशतिर्वै सङ्कर्षणादयः विश्वादयसहस्रं च पर्याद अमिता स्मृताः अवताराह्य सङ्ख्यादा विष्णोर्नारायणस्य च स्वयं नारायणास्तेदेनाणुमात्रं विभिद्यते बलदोरूपतश्चाभिगुणतश्च कथञ्जन अनन्दोऽनन्दगुणदपूर्णो विष्णुर्न चान्यथा इति श्रीकारूडे महापुराणे उत्तरकाण्डे ब्रह्मकाण्डे विष्णोरवतारनिरूपणं नाम पञ्चदशोऽध्यायः ओम्